गरुडपुराणम् ब्रह्मकाण्डम् मोक्षकाण्डम् अध्यायम् सिक्स् श्रीकृष्ण उवाच तत्र तत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः स्वे स्वे ह्यायतने स्वाङ्गे तदर्थम् च खगेश्वर हरिम् नारायणम् समुपचक्रमे समुपचक्रिरे चिन्द्या चिन्द्यगुणे विष्णौ विरुद्धाः सन्धिसद्गुणाः ये कैकशो का ह्यनन्दास्ते तद्गुणानां स्तुतौ मम क्वचक्रिरिति बुद्ध्या साव्रीडया वनदाब्रवीद श्रीरुवाच न तास्मितेनाथ पदारविन्दं न वेदजान्यचरणादृते तव त्वयीश्वरे सन्धि गुणाश्रुधास्तु तथाश्रुधाः सन्धि देवदेव सम्यक् सृष्टं स्वायतनं च दत्त्वा गोविन्ददामोदर माञ्जपाहि स्तुत्या मदीयश्च सुखैकपूर्णप्रियो जनो नास्ति तथा त्वदन्यः ब्रह्मोवाच लक्ष्मीपदेः सर्वजगन्निवासत्वं ज्ञानसिन्धुः क्व अहं क्व चाज्ञस्तव शक्तिरस्ति वै ह्यल्पशक्तिर् ममास्ति लक्ष्म्याश्चैव ज्ञानवैराग्यभक्तिह्यत्यल्पमद्धा मयि सर्वदैव तव प्रसादादस्ति जगन्निवास तत्र नास्ति विष्णो सदैव न देहित्वं सर्वदा मे मुरारे अहं ममत्वं प्राप्य मे दावदेव गम्यज्ञानं योग्यगुणे रमेश्यप्रमादो वा नास्ति नास्त्यद्य नित्य तन्मे हृषिकाणि पदन्द्य सत्पथे पदारविन्देदुपदन्तु सर्वदा लक्ष्म्या ह्यहं कोडिगुणेन हीनस्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद इदिस्तवं विष्णु गुणान्विधाद तार्ष्यस्थितः प्राञ्जलिस्तस्य च तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णुभक्तिसंवर्धितात्मा स्नेहोद्धरावस्खलिदाक्षरस्थं मुञ्जङ्गणान्प्राञ्जलिराबभाष वायुरुवाच ये देहि देवास्तव मृत्युभूदाः पदारविन्दम् परमं सुदुर्लभं चतुर्विधान् पुरुषार्थान् रमेश संप्रार्थये तच्च सदापि देव दृष्ट्वा हरे सैव मायैव तावत्सु कारणम् जास्ति अतो नाहं प्रदयोऽ विभूमन् भवत्पदाम्भोज निशवणोत्सुकः लोकस्य कृष्णाद्विमुखस्य अपुण्यशीलस्य सुदुःखितस्य अनुग्रहार्थं च तवावतारो नान्यश्च किञ्चित्पुरुषार्थस्तवेश गोभूसुराणां च महीरुहाणाम् तथा सुराणाम् प्रवरावतारैः च वासुदेव क्रीडन्विधत्ते न च किञ्चिदन्यत मनो न तृप्यत्यपि शंसदाम्नः सुकर्म मौलेश्चरिदामृदानि अच्छिन्नभक्तस्य हि मे मुकुन्द सदा भक्तिम् देहि पादारविन्दे सदा सदेवास्तु न किञ्चिदन्यद्यत्र त्वमासि पुरुषे देवदेवा अहं च तत्रास्मि तव यत्रास्मि यत्रास्म्यहं तत्र भवान् महाप्रभो व्यंसिर्ममेयं च शरीरमध्ये चतुर्मुखश्चैव चा न चैदतन्यहै चैदतदन्यैः मदीयनिद्रा तव वन्दनं प्रभो मदीययामाचरणं प्रदक्षिणं मदीयव्याख्या हरणं स्तुति स्यादेवं विदित्वा च समर्पयामि मद्वृद्धियोग्यं च पदार्थजातं दृष्ट्वा हरे प्रतिमा एव तच्च इद्धं मत्वाहं सर्वदा देवदेव तत्र स्थितान् हरिरूपान् हरिरूपान् भजिष्ये यच्चन्दनं यत्तु पुष्पं च धूपं वस्त्रं च यद्भक्ष्य भोज्यादिकं च एतत् सर्वं विष्णुप्रीत्यर्थमेवेत्येतद्व्रतं सर्वदा वै करिष्ये अवैष्णवान् दोषयिष्ये सदाहं सै सद्वै सद्वैष्णवान् पाल्लैष्ये मुरारे विष्णुद्रुहं चेदयिष्ये च जिह्वां तच्छृण्वदाम् पूरयिष्ये त्रपूल्काः यदादृशी शक्तिर्ममास्ति देव तव प्रसादात् बलिनोऽपि विष्णो अथापिनाहं स्तवने समर्थः लक्ष्म्या ह्यहम् कोडिगुणैर्विहीनः ये दस्तोत्रम् ह्यर्थये चैव यान्नस्तत्र प्रीतिर्ह्यक्षयामे सदा स्याद् स्तोत्रं ह्ये तत्पाठयन्तिह लोके ते वैष्णवास्तेज हरिप्रियाश्च कुर्वन्ति ये पठनं नित्यमेव समर्पयिष्यति सदा हरौ तेषां हरिप्रीयते केशवोलं हरप्रसन्ने हरौ प्रसन्ने, प्रसन्ने किमलभ्यमस्ति एवं वलदेवो महात्मा तूष्णीं स्थितप्राञ्जलिरग्रदो हरेः सरस्वत्युवाच को वारसज्ञो भगवन्मुरारे हरे गुणस्तवनात् कीर्तनाद्वा अलं बुद्धिम् प्राप्नुयाद्देवदेवब्रह्मादिभिः सर्वदा स्तूयमाना यःकर्णनाडीम्बुरुषस्य यादो भवप्रदां देहरथिं चिनति न केवलं देहरथिं चिनत्या सद्गृहक्षेत्रभार्या सुतेषु नित्यम् पश्वादिरूपेषु धनादिकेषु अनर्घ्यरत्नेषु प्रियं चिनति अनन्तवेदप्रतिपादितोऽपि लक्ष्मीर्न वैवेद तव स्वरूपं चतुर्मुखो नैव वेदनवायुरसौ न वेति किमत्र चित्रं वास्ति शक्तिर्मम प्रभो ब्रह्म वायोः सकाशाद् सतैर्गुणैः सर्वदा नूनतास्ति अदो हरे दयया माञ्जबाहि एवं स्तुत्वा हरिं साधु तूष्णीमाः स खगेश्वर हरिं समुपचक्रमे भारुवाच ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्धधानस्य नित्यम् तथा स्तुवन्तोऽस्य विवर्धमानाम् मदिम् च नित्यम् विषयेष्वत्सत्सु कुर्वन्ति वैराग्यममुत्रलोके ततः परम् भक्तिदृढाम् तथैव ततः परं चैव हरे प्रसन्नतां कुर्वन्ति नित्यं तव देवदेव तेनोपरोक्षं च भवेच्च तस्य अदो गुणानां स्तवने च मे रदिः साधु प्रजातापुरुषस्य नित्यं संसारदुःखं तु तदाचिनति विच्छिन्नदुःखस्य तथाधिकारिण आनन्दरूपाख्यफलं ददाति हरेर्गुणानस्तुवतां च पापं तेषां हि पुण्यं च तथा क्षिणोति विदित्वा परमो गुरुर्मम वायुर्दयालुर्मम वल्लभश्च हरेर्गुणान् सर्वगुणप्रसारान् ममैव योग्यान् सुखमुख्यभूतान् उद्धृत्य पुण्येभ्य इवार्तबन्धुः शिवश्च नोद्धृह्यति पुण्यकीर्तिं तव प्रसादाच्च वायोर्विरोधं न करोति देवः सदद्विरोधं च करोति नित्यम् हरेर्विरोधं न करोति वायोर्वायोर्विरोधं न करोति विष्णुः वायोः प्रसादान् मम नास्ति किञ्चिददा न भावश्च तव प्रसादात् यथैव मूलं च तथावतारे दुःखाधिकं नास्ति समीरणस्य वायुस्तधान्ये च उभौ मुकुन्दस्तथावतारेषु न दुःखरूपौ अशक्तवद्दृश्यदे वायुदेवः युगानुसारां लोकधर्मांस्तु रक्षन् नरावतारे तत्र देवे मुरारे ह्यशक्ददानेदि विचिन्तनीयम् अवताररूपे यमदुःखाधिकं चनचिन्तनीयं ज्ञानिभिर्देवदेव यम अहं कदाचित् सुखनाश्यप्रदेश्ये दैत्यांस्तथा मारयितुं गतोऽस्मि नैदावदा मम वायोश्च नित्यम् दुःखाधनं नैव स चिन्तयि संचित् सञ्चिदनीयम् एतादृशोऽहम् स्तवनेऽनुकास्तिशक्तिर्गुणानाम् मधुसूदनप्रभो वायोः सकाशाश्च गुणेन हीना संसाररूपे मुक्तरूपे च देव एवं स्तुत्वा भारतीदुतूष्णीमासखगेश्वर तदनन्तरजः शेषप्राञ्जलिप्राहकेशवम् शेष उवाच नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद अहं वाण्य शद गुणां शकीनो दत्त्वा ह्यायतनम् पाहि मां वासुदेव एवं स्तुत्वा स शेषस्तु तूष्णीमाः स खगेश्वर तदनन्तरजो वीषस्तोदुं समुपचक्रमे गरुड उवाच तव पदोस्तु दिं किं मम पदाम्बुजे ह्यर्पितं मनः कथमहं मुखे पक्षि कथमे वा गुणानीडितं क्षमः एवं स्तुत्वा तु गरुडस्तूष्णीमाः समुपचक्रमे रुद्र उवाच या वैधवेशभगवन्नविदामभूमन् भक्तिर्ममास्तु शिवपादसरोजमूले चन्नाभि स ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमदकरोमि सर्वान्नबुद्धिसहितस्य हरे मुरारे का शक्तिरस्ति वचने मम मूढबुद्धेः वाण्या सदा शतगुणेन विहीनमेनं मां पाहि मम चायतनं च दत्त्वा एवं स्तुत्वा स रुद्रस्तु तूष्णीमा सद्विजोत्तमः शेषानन्दरजा वारुणी वाक्यमब्रवीद वारुण्युवाच लक्ष्मीपदे ब्रह्मपदे मनोःपदे गिरःपदे रुद्रपदे नृणां पदे गुणांस्तव स्तोदुमहं समर्था न पार्वतीनापि सुपर्णपत्नी शशादखं दशगुणैर्विहीना मां पाहि नित्यं जगदामधीश एवं स्तुत्वा वारुणीदु तूष्णीमासगेश्वर सौवर्णी श्युपचक्रमे सौपर्णिरुवाचा सौपर्ण्युवाच स्तोतुं गुणांस्तव हरे जगदीशवाच श्रोतुं हरे तव कथां श्रवणेन शक्तिः यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वैनुवेदभुवितं भगवत्पदार्थम् अधो गुणस्तवनेनास्ति शक्तिर्विन्द्रादहं दशगुणैरवराजनित्यम् एवं स्तुत्वादु सौभर्णी तूष्णीमासखगेश्वर रुद्रानन्तरजास्तोतुम् गिरिजातूपचक्रमे पार्वत्युवाच गोविन्दनारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनं नास्त्येव नामवाजा सौभाग्यरूपस् सर्वदा एक एव नारायणेदि नारायणेधि तव नाम वैराग्य वा भक्ति विभवे परमं समर्थाम् असङ्ख्यब्रह्मादिगहत्यनाशने गुर्वङ्गानाकोडिविनाशने च नामाधिकारिणीचाकं गुणानां च महाप्रभो तवनेनास्ति मे शक्तिरुद्रा दशगुणैरहम् अवराज सदास्म्येव नात्रकार्याविचारणा एवं स्तुत्वा सा गिरिजास्तूष्णीमासखगेश्वर इति श्रीकारूडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तरतृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानी तत्तद्देवताकृतविष्णुस्तुति तत्तद्देवता तारतम्यनिरूपणं नाम षष्ठोऽध्यायः ओ